सहमानाय सहमाणाय निव्याधिने निव्याधिन आव्याधिनीनाम् निव्याधिन इति निव्याधिने आव्याधिनीनाम् पतये आव्याधिनीनामित्या व्याधिनीनाम् पतये नमः नमो नमः नमः कतुभाय ककुभाय निषङ्गिने निषङ्गिने स्तेनाम् निषङ्गिण इति निसङ्गिने पतये पतये नमः नमो नमः नमो निषङ्गिने विषङ्गिण इषुधि मते विशङ्गिण इति निशङ्गिने इषुधिमते तस्कराणाम् इषुधिमत इति इषुधि मते तस्कराणाम् पतये पतये नमः नमो नमः नमो वञ्चते वञ्चते परिवञ्चते परिवञ्चते स्तायूनाम् परिवञ्चत इति परि वञ्चते स्तायूनाम् पतये पतये नमः नमो नमः नमो निजे रवे ए परिचराय निजे रव शेरवे परिचरायारण्यानाम् परिचरायेति परिचराय अरण्यानाम् पतये पतये नमः नमो नमः नमः शृकाविभ्यः शृकावेभ्यो जिघागुंसद्भ्यः शृकावेभ्य इलिसृकाविभ्यः जिघागुम्सद्भ्योमुष्णताम् जिघागुम्सद्भ्य इति जिघागुंसत् ह्यः उष्णताम् पतये पतये नमः नमो नमः नमोऽसि मद्भ्यः असिमद्भ्यो नक्तम् असिमद्भ्य इत्यसिमत् ह्यः नक्तम् चरद्भ्यः शरद्भ्यः प्रकृन्तानाम् चरद्भ्य इति चरत् ह्यः प्रकृन्तानाम् पतये प्रकृन्तानामिति प्र कृन्तानाम् पतये नमः नमो नमः नम उश्नीषिने उष्णीषिने गिरिशराय गिरिचराय कुलुंसानाम् गिरिचरायेति गिरिचराय पुलुंसानाम् पतये पतये नमः नमो नमः नम इषुमद्भ्यः इषु मध्यो धन्वावेभ्यः इषुमभ्य इतिषुमत् नः धन्वावेभ्यश्च धन्वाविभ्य इति धन्वावि ह्यः सवः वो नमः नमो नमः नम आतम्बानेभ्यः आतम्वानेभ्यः प्रतिदधानेभ्यः आतम्वानेभ्य इत्याह तन्वानेभ्यः प्रतिदधानेभ्यश्च प्रति दधानेभ्य इति प्रति दधानेभ्यः क्षमः भो नमः नमो नमः नम आयच्छद्भ्यः आयच्छद्भ्यो विसृजद्भ्यः आयच्छद्भ्य इत्यायच्छत् घ्यः विसृजद्भ्यश्च विसृजद्भ्य इति विसृजत् भः शवः वो नमः नमो नमः नमोऽद्भ्यः अस्य भो विद्यद्भ्यः अस्यभ्य इत्यस्यत् यः विद्यद्भ्यश्च इति विद्यत् यः वो नमः नमो नमः नम आसीनेभ्यः आसीनेभ्यः शयानेभ्यः शयानेभ्यश्च चः भो नमः नमो नमः नमः स्वपद्भ्यः स्वपद्भ्यो जाग्रद्भ्यः स्वपद्भ्य इति स्वपत् ह्यः जाग्रद्भ्यश्च जाग्रद्भ्य इति जाग्रत् ह्यः शवः वो नमः नमो नमः नमस्तिष्ठद्भ्यः तिष्ठद्भ्यो धावद्भ्यः तिष्ठभ्य इति तिष्ठत् ह्यः धावद्भ्यश्च धावद्भ्य इति धावत् ह्यः शवः वो नमः नमो नमः नमः सभाभ्यः सभाभ्यः सभापतिभ्यः सभापतिभ्यश्च सभापतिभ्य इति सभापति यः च वः नमः नमो नमः नमो अश्वेभ्यः अश्वेभ्योश्वपतिभ्यः अश्वपतिभ्यश्च अश्वपतेभ्य इत्यश्वपति यः शः भो नमः नम इति नमः नमः सहमानाय सहमानायणे व्या